पाताय प्रतिबोधिताम् भगवताम् नारायणी अस्वयम् ज्ञानेन गिताम् पुराणमुल्या मध्ये महाभारते अद्वैतामृतवर्षिणीम् भगवतेम् अष्टादशाध्यायिनीम् अम्बत्वानुसन्दधामि भगवद्गीते भवद्वेषिणीम् नमोऽस्ते व्यास विशालबुद्धे पुल्लारविन्दाय न पत्र नेत्र येन त्वया भारतैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीप प्रपन्नपारिजाताय स्तोत्रमेत्रैकपाणये ज्ञानमुद्राय कृष्णाय गीतामृततु हे तमः सर्वोपनिषदो गावो दोक्ता गोपालनन्दनः दो आतो वत्सत् सुधीर्भोक्ता गुप्तम् गीतामृतं महत् वसुधेवसुतं देवं रं सजाणूरमर्दनम् देवकेवलमानन्दम् कृष्णं वन्दे जगद्गुरुम् भीष्मलद्रोणतटाजयद्रथ जलागान्धारलीलोत्पला शल्यग्राहनी कृपेण वहनी कर्णेन वेदातुला अश्वत्थामविकर्णगौरमकरा दुर्योधना पल्लिनी सोपीर्णाखलुवैरणनदी कैवत्रेशव पाराशर्यवचः सरोजममलम् गीतार्थगन्धोत्कटम् नाराख्यानकरे सरम् फलिरथाोधनाबोदितम् लोके सज्जन षट्पदीयमानम् मुदा भूयाद्भारतपङ्कजम् कविमल प्रत्वंशिनः श्रेयसे यम् ब्रह्मा करुणेन्द्ररुद्रमरुता तुन्मन्ति दिव्यै श्रमये वेदैः साङ्गपरक्रमोपनिषदैर्गायन्त्ययम् सामगा यानामस्थिरद्गतेन मनसा पश्यन्त्ययम् योगिनो यस्यान्तम् न विदुःसुरा सुरगणा देवाय रस्वै नमः नारायणम् नमस्कृत्या ललम् चैव नरुन्नमम् देवीम् सरस्वती व्यासम् ततो जयमुदीरये